एकनिमिषम् अस्तु अद्य भगिनी भवती प्रार्थनया आरम्भं करोति वा आं बेनि करो. नमो नमः नमो नमः नमस्कारः त्याः परस्वतम् विघ्नम् निघ्नन्ति सततम् विस्पक्षेणम् तमाश्रये ॐ पाताय प्रतिबोधिताम् भगवता नारायणेन स्वयम् व्यासेन ग्रथिताम् पुराणमुनिनाम् मध्ये महाभारतम् अध्वतामृतवर्षिणीम् भगवतीम् अष्टादशाध्यायिनी अम्ब त्वामनुसन्ददामि भगवद्गीते भवद्वेषिणी नमोऽस्तु ते व्यासविशालबुद्धे उल्लारविन्दायतपत्रणेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रतीपः प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः सर्वोपनिषदो दुग्धागोपालनन्दनः दुग्धा सुधेर्भोक्ता दुग्धम् गीतामृतम् महत् वसुदेवसुतम् देवं कं सचानूरमदनम् देवकी परमानन्दम् कृष्णम् वन्दे जगत् कुरु नमस्कार धन्यवादाः पुनः एकवारं सर्वेषाम् स्वागतम् नमो नमः अस्तु हरि ओम् हरिः ओम् अधुना अस्माकं विषयः अस्ति द्वितीया विभक्ति इति तत्र वयं दृष्टवन्तः द्वितीया विभक्ति कदा आगच्छति तत् कर्मपदस्य द्वितीया विभक्ति भवति कदा भवति वाक्ये यत् कर्मपदं तत्र वयम् एकं सूत्रमपि दृष्टवन्तः कर्तुरीप् स्थिततमं कर्म इत्युक्ते कर्ता कर्ता क्रियया द्वारा यत्किमपि इत्सिततमं यत् किमपि प्राप्तुमिच्छति तस्य कर्म इति संज्ञा तत् वयं दृष्टवन्तः अद्यदिने वयं किं कुर्मः उपपदविभक्ति इति एकः विभागः उपपदविभक्ति हा तत् कर्मपदं यत् वयं दृष्टवन्तः पूर्वे तत् अस्ति कारकविभक्ति कर्मकार विभक्तिः अधुना उपपदविभक्ति उपपद उप इत्युक्ते समीपं तद्वयं जानीमः उप इत्युक्ते समीपम् इत्युक्ते वाक्ये एकं विशिष्टं पदं यदा अस्ति तदा तस्य पदस्य योगे द्वितीया विभक्तिः भवति वाक्ये पदस्य योगे पदस्य योजनेन यदा तस्य पदस्य योजना भवति तदा द्वितीया विभक्ति प्रयुञ्जते इति विषयः उपपदविभक्ति अधुना उपपदद्वितीया कारकद्वितीया तत् कर्मपदस्य द्वितीया क्रिया अधुना क्रियापदमस्ति कर्ता अस्ति कर्म अस्ति कर्मपदं कर्तृपदं क्रियापदं तदा कर्ता किं प्राप्तुमिच्छति कर्ता क्रियया कस्य फलस्य इच्छां करोति तस्य कर्म इति सञ्ज्ञा तदस्ति कारकविभक्ति उपपदविभक्ति उपपदविभक्ति इत्युक्ते उपपदयोजनेन अपि तत्र द्वितीया भवति कदा भवति पश्यामः हा अस्तु अधुना पुस्तकं मास्तु एकवारं तत् अहं स्क्रीन् शेर् करोमि अनन्तरं पुस्तकं प्रति अपि वयं गच्छामः अत्र अत्र का स्थितिः अस्ति हा भारतमहोदये भवान् वदति वा किं किमस्ति चित्रे चित्रवर्णनं करोति वा एवं वा एकनिमिषम् एकनिमिषम् एकनिमिषम् अधुना दृश्यते वा भारत भारतमहोदय न न अधुना दृश्यते अस्तु भवान् स्वशब्दैः चित्रवर्णनं करोति वा श्रीकृष्ण दृश्यते राधा राधा दृश्यते एन् गोपी गोपीयोः दृश् द्रस्य, दृश्यन् दृश्यन्ति गोप्यः तत्र नदीनद्यो नद्यः तथैव गोप्यः इति योचे अधुना यदा मनसि सम्भाषणे यदा मनसि सन्देहाः सन्ति तत् किं गोपिका अपि शब्दः तत् इति वक्तुं शक्नुमः तत् वयं जानीमः गोपिकाः हा गोपिकाः अपि सन्ति हा अधुना पश्यन्तु कृष्णः कृष्णः परितः गोपिकाः कास्यति कृष्णः परितः गोपिका अधुना परितः शब्दस्य योगे अहं वाक्यं योजयामि कृष्णं परितः गोपिकाः सन्ति कृष्णं परितः गोपिकाः सन्ति अधुना तत्र भारतमहोदय कृष्णम् इति विभक्तिका कृष्ण प्रथमा विभक्ति कृष्णः इति प्रथमा परन्तु कृष्णम् इति कृष्णम् द्वितीया विभक्ति इत्युक्ते परितः शब्द आम् द्वितीया विभक्ति एकवचनं योग्यम् परितः शब्दस्य योगे द्वितीया विभक्ति भवति सा विभक्ति उपपदविभक्ति इति नाम्ना ज्ञायते आ, शब्दस्य शगे द्वितिया यत्र यत्र शब्द तदा तस्य योगे किंकरीय तोगे द्वितीयाव प्रयुंजते अस्त अदुना अश्यत भारत मोदय किमी त्रग अस्त खलु मग पथ त्र अयन भगवत मस्ति कलो, अब तगवी भगवदीतालु अयनु सर्व तत्न वर्तम अर्ग वीथी अभी मग हाँ अगर दृश्य से अना मगे एक भागे अृक्षा सी दीए भागे अभी वृक्षा सी <laughs> इत्युक्ते तत्र उभयताः उभयतः उभयता वृक्षाः सन्ति एवं खलु भरतमहोदय oh, उभयतः okay, yeah. वृक्षाः okay. सन्ति अधुना शृणोतु ह hmm. मार्गम् उभयतः वृक्षाः सन्ति मार्गम् उभयतः वृक्षाः सन्ति अत्र द्वितीया विभक्तिः कुत्र दृश्यते महोदय अत्र मार, मार्गम् इति द्वितीया विभक्ति इत्युक्ते यथा परितः योगे द्वितीया विभक्ति कृष्णं परितः गोपिकाः सन्ति तथैव मार्गम् उभयतः वृक्षाः सन्ति इत्युक्ते परितः योगे उभयतः योगे किं भवति द्वितिया, विभक्ति भवति उपपद विभक्ति अधुना पश्यन्तु एकवारं पठति वा एतत् ओके okay. परितः उभयतः विना द्वितिया, तृतीया पंचमी. विना इत्युक्ते किं महोदय विदौट् करेक्ट् सत्यम् हा अस्तु अस्तु धन्यवादः हा इत्युक्ते परितः योगे उभयतः योग परितः योगे द्वितीया उभयतः योगे द्वितीया विना योगे अपि द्वितिया, परन्तु एडिशनलि किमस्ति तृतीया अपि भवितुम् अर्हति पञ्चमी अपि भवितुम् अर्हति कस्य योगे बिना, शब्दस्य योगे द्वितीया तृतीया पञ्चमी अधुना हा राधा भगिनी नमो नमः भवती वक्तुं शक्नोति वा राधा भगिनी अस्तु अधुना अहं मनसि एकं वाक्यं वक्तुम् इच्छामि तदस्ति mm -hmm. राम राम रामशब्दस्य विभक्ति भवति एव तस्य योजनां करोतु राम mm -hmm. ह विना राम विना राम सीता अयोध्यायां तिष्ठति विना राम रामशब्दस्य उचितविभक्तिरूपं भवति एव पूरयतु विना राम सीता अयोध्यायां न वदतु विना रामं सीतायां न, न अस्तु बहु सम्यक् तद्वितीया अधुना तत्र तृतीयापि सम्भवति पञ्चमी अपि सम्भवति रामशब्दस्य hmm. रूपाणि योजयतु विना uh, रामेण सीता hmm. अयोध्यायां न तिष्ठति सम्यक् तथैव ता पञ्चमी hmm. uh, रामात् हा तत्र रामात् पञ्चमी अस्ति hmm. रामात् विना hmm. रामात् गीता अयोध्यायां न तिष्ठति न तिष्ठति उत्तमं बहु सम्यक् अस्तु अस्तु सम्यक् अधुना अहमेकं चित्रम् एकनिमिषम् अत्र पश्यतु अत्र अहं किं करोमि राधा भगिनी धन्यवादः अधुना विना भगिनी भवत्याः अवसरः अस्तु भगिनी अहमस्मि आत्रा, आत्रा अस्ति एते सर्वे. एते सर्वे अस्थागि तड़ाग एक सर्वे सी अधुना एक वृक्षा वाक्य वदतीक्यरचना कौती का तड़ाग अस् वृक्षाः सन्ति आम... पश्यन्तु पठितवन्तः परितः उभयतः विना परितः ना अद्य वयं कृतवन्तः अधुना शब्दयोजनां कृत्वा वदति परितः इत्युक्ते अरौण्ड् भगिनि आं सम्यक् अस्तु सम्यक् तडागस्य परितः वृक्षाः सन्ति तडाग अधुना भगिनी तत् परितः योगे विभक्तिका परितः योगे परितः विना योगे द्वितीया भक्तिका द्वितीया द्वितीया एवं खलु अधुना वाक्य वाक्यरचनां करोतु तडागं वा तडागं परितः सम्यक् वृक्षाः सन्ति सम्यक् तडागं परितः वृक्षाः सन्ति सम्यक् इतोपि एकं करोतु अत्र नदी नद्याः खारा हा अत्रापि वृक्षाः सन्ति अत्रापि वृक्षाः सन्ति अधुना वाक्यरचनां करोति वा इकारान्तस्त्रीलिङ्ग नदीनद्यः नदी नद्य नद्यं वा नदीम् इति नदीम् आ नदीम् आं नदीं नदीम् उभयतः वृक्षाः सन्ति सम्यक् नदीम् उभयतः वृक्षाः सम्यक् अधुना जलमिति शब्दं स्वीकरोतु विना जलं mm -hmm. शब्दयोः योजनां भवेत् वाक्यरचनां करोतु जलम् जलं विना कथं सस्यानि कश्चन सस्यानि न वर्धन्ते न वर्धयन्ति न वर्धयन्ति सत्यं सत्यम् उत्तमं जलं विना कृषिकार्यं न सम्भवति एवं सरस्तु सत्यं हा mm. तत्र भवति द्वितीया विभक्ति तृतीया विभक्ति वा पञ्चमी विभक्ति हाँ। हाँ। जलं विना जलेन विना वा जलात् विना अस्तु आ, अस्तु एषः अस्माकम् अद्यदिनस्य विषयः उभयतः योगे द्वितीया परितः योगे द्वितीया विना योगे द्वितीया उपपदविभक्ति इति उपपदविभक्ति कारकविभक्ति उपपदविभक्ति यत्र यत्र उपपदविभक्ति अस्ति तदा किं भवति केचन शब्दाः केचन शब्दाः सन्ति तेषां योगे विभक्ति आगच्छति ते शब्दाः उपपद विभक्ति उप उपपदविभक्ति इति तेषां नामकरणम् अस्ति तत् उपपदविभक्ति अधुना द्वितीया विभक्त्या कृते अग्रिमे वयं तृतीया विभक्ति विभक्तेः कृते चतुर्थी विभक्तेः कृते पञ्चमीविभक्तेः कृते एवं सर्वम् अग्रिमे पठिष्यामः अद्य दिनस्य विषय कः उभयतः परितः विना योगे द्वितीया विभक्ति भवति सा विभक्ति इति तस्याः नामकरणम् अस्ति उपपदविभक्ति अत्र पश्यन्तु उभयतः परितः विना इत्यादीनां योगे यत्र यत्र अधियोग इत्युक्ते यत्र यत्र एतेषां शब्दानां योजना अस्ति वाक्ये तदा तेषां योगे द्वितीया विभक्ति भवति अस्तु अधुना अम्बिकापतिमहोदय भवान् पठति वा पठतु <coughs> uh, पश्यत पठत च उभयतः हरितः विना इत्यादीनां योगे द्वितीया यागात्वम् उभयतः लवणकुशौ स्तः लवकुशौ स्तः लवकुश तत्र तत्र पश्यतु वयं सर्वे रामायणे तत्र प्रभुरामस्य पुत्राः पुत्रौ लवः कुशः लवकुशौ इति द्विवचनान्तपदं सामासिकशब्दः समास समसनं समास इत्युक्ते कम्बैन्ड् वर्ड् फ़् लव एण्ड् कुशः लवकुशौ यागाश्वम् इत्युक्ते अश्व यागाय यत् अश्वः यागाश्वम् इति तत् राजसूययज्ञ तत्र न न राजसूयक्षम्यतां राजसूययज्ञ तु युधिष्ठिरेण कृतं तत् अश्वमे अश्वमेघयज्ञः तत् तापसवेषः तापसवेषधारिणौ लवकुशौ तत्र उभयतः या, यागाश्वम् उभयतः लवकुशौ स्तः स्तः कथमागच्छति अस्ति प्रथमपुरुष एकवचनम् स्तः प्रथमपुरुषद्विवचनम् सन्ति प्रथमपुरुष बहुवचनम् अतः यागाश्वम् उभयतः लवकुशौ अत्र यागाश्वं शब्दस्य अस्ति द्वितीया उभयतः शब्दस्य योजनेन तत्र यागाश्वं शब्दस्य द्वितीया विभक्ति भवति अग्रिमे पठति अभिमन्युं परितः महा रथाः सन्ति अभिमन्युं परितः महारथः कदा अभवत् एतादृशी स्थितिः अभिमन्युम् अभिमन्यु मध्ये अस्ति परितः महारता। महारता हा। तत्र कुरुक्षेत्रे चक्रव्युहभेदनसमये अभिमन्युः तत्र सः एकलः सः एव प्रविष्टवान् आसीत् अन्ये सर्वे महारथाः तम् परितः अभिमन्युम् परितः हा भेदन समये। तत्र के के सन्ति कर्णः द्रोणः अनन्तरं दुर्योधनः सर्वे मिलित्वा अभिमन्युवधं कृतवन्तः अभिमन्युं परितः सर्वे महारथाः सन्ति चक्रव्यूहवेदनसमये कुरुक्षेत्रे सरौण्डेड् बै आल् इति अस्तु तृतीयं वाक्यं पठतिवा वा भी भीमः किरीटं विना तिष्ठति अत्रापि किरीटमित्यस्य द्वितीया विभक्ति किरीटम् इत्युक्ते आम आम आम आम् आम् विना इत्युक्ते अत्रापि द्वितीया विभक्ति योग्य योग्यम् अधुना अग्रिमी पठत एतानि एतानि वाक्यानि पठत मार्गम् उभयतः वृक्षाः सन्ति उत्पीठिकाम् उभयतः आसन्दः सन्ति शर्करां परितः पिपिलीकाः आगच्छन्ति दीपं परितः प्रकाशः सन्ति अस्ति आचार्यम् ष्याः सन्ति जलं विना जीवनं न, न सम्भवति सैनिकां विना देशरक्षणं न भवति महाराजम् उभयतः सैनिकाः चलन्ति भवन्तं परितः के सन्ति माम् विना भगिनी विद्यालयम् न गच्छति अत्र पश्यन्तु सर्वे उभयतः परितः सर्वेषु वाक्येषु उभयतः परितः विना एतेषाम् शब्दानाम् योजनाम दृश्यते एतेषाम् शब्दानाम् योगेन सर्वेषु स्थलेषु द्वितिया प्रयुञ्जते उत्पीठिका उत्पीठिकाम् श्रीलिङ्गी आकारान्तशब्द दीपम् जलम् महाराजम् हा दीपम् जलं, दीपम जलं नपुसकलिङ्गे माम इति अपि द्वितीया विभक्ति भवन्तम् द्वितीया सैनिकान् द्वितीया बहुवचन आचार्यम् आकारांत आकारान्तस्त्रीलिङ्गी सर्वेषु स्थलेषु यत्र यत्र उभयतः परितः विना शब्दानां योजना तत्र द्वितीया विभक्ति उपपदद्वितीया इति नामना ज्ञायते अस्तु धन्यवाद महोदय सम्यक् अस्ति धन्यवादः धन्यवाद अधुना अग्रिमे तत् रमाभगिनी भवती पठतिवा एतानी एतानि वाक्यानि यथोदाहरणं पूरयत अस्तु भगिनी आचार्यं परितः एतदानि वाक्यानि एतानि वाक्यानि एतानि वाक्यानि यतो यतो उदाहरणं पूरयत ऋषीम् उभयतः शिष्याः सन्ति Hmm. परितः सस्यानि सन्ति hmm. तडाकं परितः सस्याः सन्ति ओ तटाङ्कडाङ्कः अस्तु विना प्रकाशः न भवति सूर्यं विना काशः न भवति सत्यं सत्यं विना आत्मविकासः न भवति hmm. स्वाध्यायं विना आत्मविकासः न भवति hmm. पर... hmm. बालाः सन्ति त्वं त्वं hmm. परितः बालाः सन्ति हा अतः अधुना त्वम् इति अस्ति युष्मशब्दस्य त्वम् इति प्रथं द्वितीया का द्वितीया अस्ति त्वां त्वां त्वम् इति प्रथमा एकवचन द्वितीय अस्ति त्वां त्वां परितः वृक्षाः सन्ति कुल्यां hmm. कुल्यां कुल्या hmm, कुल्याम् इत्युक्ते तत्र नदी नदी एव परन्तु तत्र किञ्चित् न्यू न्यूनं न्यूनं नद्याः लघुरूपम् इति वक्तुं शक्नुमः hmm. हा तत् उभयतः वृक्षाः सन्ति हा अग्रिमे परितः वृद्धिः अस्ति hmm. उतपान उतपानः उतपानं परितः वृद्धिः अस्ति hmm. उतपानम् इत्युक्ते किं वयम् उदपानं परितः उदपान इत्युक्ते तत्र जलाशयः वाटर् बाडि इति एनी शार्ट् आफ् वाटर् बाडि परितः वृतीः अस्ति उभयतः श्रोतारः उपविशन्ति कविं कविम् उभयतः श्रोतारः <laughs> <आ रहा>, उपविशन्ति <laughs> परितः शत्रवः सन्ति द्योतः योधां परितः शोधव योधां परितः शत्रवः उभयतः नेत्रे स्तः नासिकाम् उभयतः नेत्रे स्तः hmm. विना मित्रं न क्रीडति एषः hmm. एष् एषः विना मित्रं न क्रीडति अधुना एषः एषः शब्दस्य द्वितीया का यथा सः तौते तं तौतान् तस एषः किं भवति एतम् एतं विना मित्रं न क्रीडति अस्तु धन्यवादः पश्यन्तु अत्र उदपानः अनन्तरं तत्र तत् वृत्तिः वृत्तिः विना वृत्तिः इत्युक्ते किं तत् तरङ्गाः वा तत्र किं वदामः तत्र जले उदा तरङ्ग एव तरङ्गाः एव तत्र जले कापि प्रक्रिया अतः तत्र पृष्ठभागे तरङ्गाः सन्ति खलु तत् वृत्तिः इति उदपानः जलाशयः कुल्या इत्युक्ते नदी एव परन्तु न्यूनं जलं तत्र अस्ति स्वाध्यायः तु वयं सर्वे जानीमः नासिका अपि जानीमः योधः इत्युक्ते योद्धारः इति अस्तु अस्तु अस्तु भगिनि धन्यवादः धन्यवादः हा अधुना अग्रिमे तत् हा गी गीता भगिनी भवती पठति वा पठामि डेश् परितः मनः भ्र भ्रमति विषयं परितः मनः भ्रमति आम् डेश् विना न, सज्जन ष् पदा पदाः नुष्यन्ति भारतपङ्कजस्य विना विना योगे विभक्ति का द्वितीया द्वितीया तृतीया पञ्चमेण हा परन्तु अत्र किं भवति भारतपङ्कजं पङ्कजम् इत्युक्ते किं पङ्क इत्युक्ते किं लोटस् किं लोटस् न भगिनि आम् आम् हा पङ्के यस्य जननं भवति पङ्के जननं पङ्कम् इत्युक्ते मण् पङ्कजम् इत्युक्ते पङ्के यः उद्भूतः पङ्कात् उद्भूतः तत्तु कमलिनी तद् भारतरूपीकमलिनी भारतपङ्कजं विना सज्जनषट्पदा यथा कमलिनी परितः कमलिनी परितः कमलिनीं परितः के सन्ति भ्रमराः सन्ति षट्पदाः इत्युक्ते षट्पादयुक्ताः कीटकाः तद् भ्रमरा अत्र सज्जनस्य उपमा भारतपङ्कजम् इत्युक्ते सज्जनानां सज्जनानां रसः वा रुचिः कुत्र भारतपङ्कजे एव भारतपङ्कजं विना सज्जनषट्पदाः न रुष्यन्ति तेषां निष्ठा वा तेषां oh. स्वामिभक्तिः वा सर्वत्र किमस्ति कुत्र अस्ति भारतपङ्कजे यथा भारतपङ्कजं विना सज्जनषट्पदाः न रुष्यति न रुष्यन्ति इति अस्तु अत्र तत् प्रथमं कोष्ठं यत् अस्ति तत् पूर्णं करोति वा कोष्ठके दत्तानां शब्दानाम् आधारिता शब्दानाम् आधारेण वाक्यानि रचयत महाराजः सन्ति नदीम् उभयतः सस्यानि सन्ति माताम् उभयतः बालाः माता द्वितीया का मातरं मातरं मातरम् उभयतः बालाः सन्ति किन्वान् नाम वयिम् जिह्वा जिह्वा जिह्वां जिह्वाम् उभयतः दन्ताः सन्ति आम् श्रु श्रुतिः श्रुतिम् उभयतः भवनानि सन्ति हा श्रुतिः इति अपि तत्रापि मार्गविषयेव मार्गस्य विषये बहवः शब्दाः मार्ग श्रुतिः इत्युक्ते मार्गः एव हा भवनानि सन्ति अस्तु अस्तु अस्तु धन्यवादः धन्यवादः धन्यवादः अग्रिमे तत् हा जयन्ती भगिनी द्वितीयं स्वीकरोति वाक्यानि मन्दिरं तत् हा मन्दिरं परितः भक्ताः सन्ति पुष्पाणि परितः भ्रमराः सन्ति धेनुं परितः वत्सः अस्ति यज्ञ यज्ञकुण्डः यज्ञकुण्ठं यज्ञकुण्डं परितः ऋषयः सन्ति गुडः गुडं परितः पिपिलिकाः सन्ति जलं एकनिमिषं तत्र गुडः पिपीलिका सर्वे जानन्ति खलु पिपीलिकाः इत्युक्ते गुडः इत्युक्ते सर्वे जानन्ति खलु पिपलिका इत्युक्ते पठतु भगिनी जयन्ति जलं जलं विना जषाः न जीवन्ति अभ्यासः बिना मनोनिग्रहणं भवति अभ्यासं अभ्यासं विना मनोनिग्रहणं भवति तत्र पश्यन्तु अभ्यासं विना मनोनिग्रहणं तत्र पुस्तके एव अस्ति कर्तुं न शक्यते न शक्यते विना अभ्यासं मनोनिग्रहणं न शक्यते खलु तत् वयं वदामः खलु तत् योगाभ्यासः वा शास्त्रविषयक अध्ययनं व्याकरणशास्त्रं वा नृत्यशास्त्रं वा गायनस्यात्रं तस्य एतेषां विषये क्राश् क्रोस् कृत्वा तत्र प्रभुत्वम् आगच्छति वा एकस्मिन् दिने एव सर्वं पठामः तत एवं नास्ति खलु तत् अभ्यासेन एव अभ्यासं विना न शक्यते इति अभ्यासेन तु uh, कौन्तेय इति आम् सत्यमेव श्रद्धां विना ज्ञानं न आ, आगें। आगें। भवति सङ्गः सङ्गं विना कर्म कुर्मः कर्म कुर्मः भवति वा भगिनी कर्म कुर्मः कर्मशब्दस्य विशेषता का कर्मनिति पातिपदि तस्य द्वितीया hmm. अपि कर्म एव भवति तत् कर्म एव द्वितीया अतः hmm. सङ्गं कर्म कुर्मह, किं कुर्मह? कर्म ना सङ्गं विना इत्युक्ते विदौट् गेटिङ्ग् अटेच् यु न फलापेक्षा फलस्य अपेक्षा न भवेत् सङ्गं कर्म कुर्मः तत्तु सुलभः नास्ति अस्माकं कृते सुलभः अस्ति वा न अभ्यासेन पश्यामः अग्रिमे त्यागं बिना जीवनं न शोभते mm. वायु वायुं विना प्राणिनः जीवितुं न शक्नु शक्नुवन्ति प्राणिनः mm. अत्र प्राणिनः mm. शब्द प्राणि mm. इति प्रातिपदि प्रथमा विभक्ति बहुवचनं प्राणिनः जीतुं न शक्नुवन्ति के जीवितुं न शक्नुवन्ति प्राणिनः कं विना कं विना वायुविना अस्तु अस्तु अस्तु अग्रिमे भारतमहोदय भवान् पठति वा उपयतः परितः अनयो एक तस्य उपयोगेन यथोदाहरणं वाक्याने लिखत mm. देवः भक्ताः देवं परितः भक्ताः सन्ति भीष्मः mm. कुरुपाण्डवाः भीष्मं परि, परितः पाण्डवाः सन्ति अत्र पश्यन्तु प्रथमे अध्याये तत्र दुर्योधनः वदति तत् भीष्माभिरक्षितं तत्र भीष्मम् एव रक्षणीयं भीष्मपितामहः ह अतीव सामर्थ्यवान इति सः भीष्मं परितः सर्वे कुरु कुरुपाण्डवाः इत्युक्ते भीष्मं परितः तत्र रणाङ्गे रणाङ्गणे भीष्म भीष्म एव रक्षणीयः इति आदेशः अस्ति हा, आदेशः केन केन दत्तं दुर्योधनेन इति तत् कुरुपाण्डवः इत्युक्ते तद् भिन्न विश्वय परन्तु अहं सन्दर्भेण उक्तवती भीष्मपितामहः तस्य सामर्थ्यं कीदृशम् इति अस्तु अग्रिम तुणिरम् इषु तुणिरम् तुणीरं तुणीरम् इत्युक्ते तत्र पश्यन्तु इषु तत् इषु Uh, मूलतः अत्र इत, इषु इति द्वितीया uh, द्वि क्षमतां द्वितीय द्वि द्विवचनमस्ति हा तुणीरम् इत्युक्ते बाणपात्रं यत्र uh, धनुर्विद्या uh, विषयकः तत्र यत्र बाणस्थापनं भवति तत् तुणिरं तत् तुणिरम् अन अनन्तरं तत्र इषु मूलतः इषु इति उकारान्त ह्रस्व उकारान्तशब्द इषु इषु इषवः इति अतः तत्र अत्र तुणीरम् उभयतः इषु स्तः तत्र तुणीरमस्ति उभयतः सैड् तत्र इषु इति सूर्यः प्रकाशवलयः सूर्यं प्रकाशवलयः सन्ति अस्ति प्रकाशवलयः अस्ति गदा खड्गाः खड्गाः खडा खड्गा इत्युक्ते गदा, गदा अपि तत्र वेपन् गदाम सत्यम् उभयतः खडा खडाः खड्गाः खड्गाः अस्ति सन्ति सन्ति तद् बहुवचनस्य कृष्णः कृष्ण परितः गोपिकाः सन्ति यागास्वस्वं यागास्व यागाश्वम् इत्युक्ते यागाश्वम् इत्युक्ते यागाय या अश्वं तत् प्रथमे चित्रे एव, एवं खलु यागाश्वं तत्र यागाय या अश्वमेधयज्ञ oh, वा okay, राजदृहयज्ञ yeah, yeah, yeah, yeah. okay, yeah. या, इत्युक्ते याग तत्र याग यागाय या अश्वस्य योजना यदा अभवत् तदा अत्र अस्ति खलु ौ योधौ इत्युक्ते कदतु यतो योद्धौ स्तः उभयतः यो स्तः द्विवचन् आम् द्विवचनम् अस्ति अस्ति इति एकवचन् तह इति द्विवचन् सन्ति इति बहुवचन् बालकः अस्ति बालकौ तह बालकाः सन्ति mm -hmm. yeah. अस्तु अवश्यम् okay. योग्य धन्यवादः yeah. अधुना तत्तु अभवत् उपपदविभक्ति अस्माकं कथायाः समयः अष्टा बिलभगिनी आरम्भं करोति वा अस्तु भगिनि अहिंसाचरणं कश्चन ग्रामः तत्र कश्चन कश्चन वटवृक्षः आसीत् तस्मिन् वृक्षे कश्चन सर्पः वसतिस्म स्म सः hmm. अतीव विषपूरितः आसीत् तेन hmm. मार्गेण आगतान् सर्वान् अपि सः दशति स्म hmm. तस्मात् कारणात् ग्रामजनाः तेन मार्गेण गमनागमनम् कर्तुम् भयम् अनुभवन्ति स्म अधुना वदतु स्वशब्दैः किमस्ति एकं ग्रामम् आसीत् तत्र कश्चन वटवृक्षाः बेनियन् ट्री वटवृक्षः आसीत् तस्य वृक्षे कश्चन सर्पः वसति स्म सर्पः अतीव विषपूरिता अत्र एकं वक्तुम् इच्छामि सर्प सर्प इति पश्यतु तत्र सृ इति धातु अस्ति सृ सरति सर्प सृ तस्य सर्पः तस्य चलनक्रिया यदि चिन्तयामः तत् कीदृशी भवति सरति इति अतः तत् इतोपि सर्पस्य कृते उरगा इति एकः शब्द एकः तत्र पदमस्ति एकं पदम् उरगा तत् उरगा इत्युक्ते उरसा गच्छति उरसा तत् पर्टिक्युलर्ली देट् चेस्ट् पोर्शन् उरसा गच्छति यूसिङ्ग् देट् टिपिकल् देट् मोशन् जस्ट् ट्रै टु रिकलेक्ट् तत् उरसा गच्छति सः उरगः इत्युक्ते सर्पः तथा एव वदामि किमस्ति संस्कृतभाषायां शब्दाः जीविताः सन्ति तेषु जीवनमस्ति नान् लिविङ्ग् एण्टिटि इति न हा जीवनमिति तत् शब्दानाम् उदयः अत्र व्युत्पत्तिदृष्ट्या यदि पश्यामः चेत् तदापि अर्थबोधः श्रूसरति सर्पः उरसा गच्छति उरहः पङ्कज पङ्के जायते जलदः जलं ददाति मेघः एवं सर्व अस्तु उरगः इत्युक्ते सर्पः एव भगिनी या आम् उरसा गच्छति तत् टिपिकल् देट् क्रालिङ्ग् आफ़् देट् छेस् पोर्शन् हेपन्स् खलु उर इति अस्तु भगिनि सुपर्य Um, uh, सर्पाः uh, अतीव विषपूरिताः uh, आसन् hmm. hmm. um, uh, uh, um, तेन मार्गेण आगतान् सर्वान् अपि सः दशति स्म सर्पः uh, hmm. दशति दशति स्म hmm. uh, तस्मात् कारणात् कोऽपि uh, uh, जनाः तत्र गन्तुं न uh, गन्तुं भयम् अनुभवन्ति सः hmm. सर्प दंशं करोति अधुना अत्रापि पश्यतु दंश इति धातुः अस्ति परन्तु hmm. क्रियापद क्रियापदस्य निर्मिती यदा भवति तदा तत् नकार अपजगच्छति एकं सूत्रमस्ति तस्मात् कारणात् तत् नकार अपगच्छति दंश hmm. इति धातु परन्तु दश इति भवति दशति दशति स्म तस्मात् कारणात् ग्रामजनाः तेन मार्गेण गमन आगमनं गमन आगमनं तत्र गमनम् आगमम् गमनमित्युक्ते टु गो आगमनमित्युक्तु रिटर्न् बेक् तत् न कर् कर्तुं शक्नुवन्ति कर्तुं भयम् अनुभवन्ति स्म अस्तु अत्र अत्र कर्तुम् इत्युक्ते प्रत्ययस्य विषये वदति वा कर्तुम् इत्युक्ते कः प्रत्ययः भगिनि हा क्रु इति धातुं तत्तु योग्यं क्रु दातुं करोति एवं सर्वं रूपाणि सन्ति तुन् तुन् तुमुन् प्रत्यय गन्तुं कर्तुं पठितुं एवं सर्वं भयम् अनुभवति स्म अधुना स्मशब्दस्य योजना तत्र योजनया किं सिद्ध्यति योजनया भूतकालः सूचयति भगिनी अस्तु या क्रिया भूतकाले प्रवर्तति तस्य प्रवर् प्रवर्तन्ती आसीत् तस्य विषये स्म अस्तु उत्तमं धन्यवादः भगिनि धन्यवादः भगिनि अग्रिमे रमा रमा भगिनी अग्रिमे पठति एकदा ततः आरभ्य आं एकता कश्चन मुनिः तेन एव मार्गेण गच्छ गच्छन्तु आसीत् तं दृष्ट्वा सर्पः सः दशनीयः इति वेगेन वेगेन तत्र आगतवान् परन्तु महात्म महात्मनः तस्य प्रभावतः सर्पः तम् तं तं तंष्टुं तंष्टुं न शक्तः मुनिः अपि तं सर्पम् अहिंसायाः अहिंसायाः महा बोधितव बोधितवान् सर्पः मुनेः वचनं श्रुत्वा अतीव प्रभावितः अभवत् hmm. तथा आरभ्य सः दर्शनं त्यक्तवान् किम् hmm. hmm. अभवत् अत्र hmm. वदतु आं भगिनि एकदा hmm. कश्चन मुनिः मार्ग इति स्थितिः अस्ति मार्गं hmm. किमपि न गच्छति एकमुनिः hmm. मुनिः आगतवान् तस्य hmm. मार्गे आ, सर्पः दृष्ट दृष्टः मुनिं दृष्टुं द्रष्टुं द दशनं करोमि इति वेगेन तत्र आगतवान् परन्तु महात्मनः तस्य सर्पहतं सर्पः दंष्टुं न शक्तः किं वदनीयम् इत्युक्ते महात्मनः अत्र षष्ठी अस्ति तस्यापि षष्ठी महात्मनः तस्य पश्यन्तु महात्मा अस्ति इत्युक्ते सः तस्य तपोबलमस्ति तस्मिन् तपोबलमस्ति तपोबलस्य प्रभावेण सर्पः द्रष्टुं न शक्तः तत्र दर्शनं तु सर्वेषु स्थलेषु सः करे करोति एव सर्वेषां कृते दशनं परन्तु महात्मनः कृते दशनं न शक्यम् इति दष्टुं न शक्तः इति तपसः प्रभावेण इति अधुना मुनिः किं कृतवान् तं सर्वम् अहिंसया महात्त्वं बोधितवान् इत्युक्ते अहिंसायाः तत्र सर्पस्य वर्तनं कीदृशं सर्वेषां दशनं करणीयं परन्तु गुण। अधुना मुनेः सर्पं बोधितवान् अहिंसायाः महत् अहिंसायाः सामर्थ्यं किमस्ति हिंसा सर्वदा करणीया इति न हिंसा इति अहिंसायाः महत्त्वं किम् एतस्मिन् विषये सः बोधं दत्तवान् <laughs> अधुना सर्पस्य का स्थितिः सर्प अपि अतीव <susur> वचनं श्रुत्वा अतीव प्रसन्न भवति प्रभावितः प्रभावितः अस्तु सः अपि तत् एव श्रुत्वा तस्य दर्शनं दर्शनम् एव न करोमि दर्शनं त्यक्तवान् इति अस्तु भगिनि धन्यवादः अग्रिमे राधा भगिनी आरम्भं करोति वा अग्रिमं परिच्छेदं भगिनि यद्यपि सर्पः विषपूरतः तत्र पूरितः पूरितः अत्र पूरितः इत्युक्ते तत्र पूरणं विषेण पूरितम् इति पूरित यद्यपि सर्पः विषपूरितः तदापि इदानीं सः विषहीनः इव व्यवहरति स्म अतः जनानां भीतिः एव न आसीत् ते सर्वे निर्भयेन तेन मार्गेण गमनागमनम् चेष्टा बालाः बालाहातु तस्य उपरि शिलाखण्डनम् क्षिपन्ति स्म केचन बालाः गृहीत्वा परन्तु सर्पः शांततया तेषां पीडां सहिते स्मरि किमस्ति अत्र परन्तु सर्पः शान्ततया तेषां पीडां सहते किमपि न प्रतिकरोति स्म किमपि न प्रति किमपि न सर्पः विषपूरित अस्ति तदापि सः विषहीनं व्यवहारं करोति तत्कारणं जना जन जनाः जनस्य भीति जनाम् जनानां भीति जनानां भीतिः अपगच्छति नगच्छति स्म अपगच्छति स्म भूतकाय अस्ति अपगच्छति स्म आ, ते सर्वे निर्भयेन ते मार्गेण गमनागमनं कुर्वन्ति कश्चन कर, कर, बालाः तु तस्य उपरि शिलाखण्डं क्षिपन्ति स्म चेष्टालवः इति एकः शब्दः चेष्टालव इत्युक्ते पश्यन्तु तत्र चेष्टालु इति एकवचनं चेष्टालव भानु भानु भानवः तथैव चेष्टालु हेष्टालु चेष्टालु चेष्टालवः भानु भानु भानवः उकारान्त पुल्लिङ्गी चेष्टालव इत्युक्ते किं चञ्चलाः बालाः इत्युक्ते मिशिवस् इति शरारति इति खलु हा वदतु आम् आम् आम् आम् आम् मिशिबस् इति तत् के पश्यतु केचन बालाः सन्ति mm -hmm. तत्र आनन्दस्य आनन्दप्राप्तेः तत् mm -hmm. पीडनं वा कदा कदा तत्र अन्येषां तत्र दुःखं ददाति स्वस्य mm -hmm. स्वस्य रञ्जनार्थम् एतत् mm -hmm. सर्वं कुर्वन्ति केचन बालाः तत् चेष्टालु बाला चेष्टालु बालः चेष्टालवः बालाः इति okay. चेष्टालवः बालाः हा, तस्य उपरि शिलाखण्डनं क्षिपन्ति क्षिपन्ति अन्य कश्चन बालाः तस्य पुचं गृहीत्वा पीडयन्ति अधुना किं काश्चिति प्रतीकारः एव सर्पः न करोति प्रतीकाररहित किं भवति जनाः जनाः ते बालाः विशेषतः सर्पं भिन्नभिन्नप्रकारेण पीडयन्ति सर्पः बहुधा पीडयन्ति तत्कारणे तत् एतत् सर्वं कारणे सर्पं बहुधा पीडयन्ति परन्तु ते शान्ततया पीडां सहनं करोति शान्ततया सर्पः शान्त सर्पः शान्ततया पीडां सहनं करोति किमपि प्रतिकारं न करोति अनुना अहिंसायाः बोधं मुनिना तत मुनिना तत् बोधः स्वीकृतः अतः तत् प्रतिकारम् एवं न करोति पीडां सहयति तस्य रक्षणं न करोति न अग्रिमे किं भवति पश्यामः धन्यवादः राधा भगिनी अधुना अग्रिमे गीता भगिनी भवती पठति वा आं भगिनि यदपि सर्पः न अग्रिमे कानिचन दिनानि अतीतानि अग्रिमं परिच्छेद दा कानिचन दिनानि अतीतानि पुनः कदाचित् अत्र एकनिमिषं सः पुनः कदाचित् सः मुनिः सः मुनिः तत्र दृष्टवान् सर्वस्य शरीरे शपाः अपि आसन् तस्यनीयां स्थितिं दृष्ट्वा मुनिः तस्य कारणम् किम् अभवत् अत्र भगिनी कानिचन दिनानि अतीतानि दिनानि पर्याप् मुनिः आगच्छन् सर्प सर्पं दृष्टवान् मुनिः सर्पं दृष्टवान् सर्वस्य शरीरे इदानीं शताः सन् शताः इत्युक्ते किंस् आम् आम् तत्र अन्यैः बालकैः पीडा mm. सः सह तेन सह्यते हा अतः ता तेन तस्मात् कारणात् किं क्षताः तत्र हा ओ oh. तस्य दाक्षृशीं दय दयनीयां स्थितिं दृष्ट्वा मुनिः तस्य कारणं पृष्टवान् तस्य साक्ष दाक्षीं इट्स् कैण्ड् कैण्ड्नेस्पस्य दयनीयं स्पठिनी दयनीयं स्थिति दृष्ट्वा मुनिं तस्य कारणं पृष्टवान् द्वादशीं कारणं पृष्टवान् अधुना सर्वे एकः अंश सर्वे कृपया शृण्वन्तु पशन्तु तादृशीं दयनीयां स्थितिम् अत्र किमस्ति द्वितीया विभक्ति स्थितिं स्थितिं मतिं गतिम् इकारान्त त्रिल्लिङ्गी तत्र द्वितीया अधुना स्थिति कीदृशी दयनीया स्थिति अतः स्थितिमिति पदस्य द्वितीया तथैव दयनीया पदस्यापि द्वितीया दन दयनीयां स्थितिं दृष्ट्वा स्थितिं दृष्ट्वा कीदृशीं स्थितिं दयनीयां स्थितिं दयनीया कथम् आकारान्त श्रीलिङ्गी दयनीयः अकारान्तपुल्लिङ्गि परन्तु अधुना स्थितिः इति श्रीलिङ्गे अतः दयनीया इति आकारान्तश्रीलिङ्गी माला माले मालाः माला माले मालाः मालां माला, दयनीयां द्वितीया अधुना तादृशी तादृशी शब्दस्य अपि तथैव द्वितीया भवेत किमर्थम् तादृशी इति दयनीया शब्दस्य विशेषणपदम् अतः यथा नदीनद्यो नद्यः तथैव नदीनद्यो नद्यः नदीम् नद्यो नदी अधुना नदीम् अतः तादृशीम् तादृशीं दय द्वितीया दयनीयाम् द्वितीया स्थितिं द्वितीया दृष्ट्वा काम् दृष्ट्वा स्थितिं दृष्ट्वा कीदृशीं दयनीयाम् पुनः कीदृशीं तादृशीं मुनिः तस्य कारणम् पुष्टवान् ओ भवान् किम् भवतः एतादृशी स्थितिः सर्वेषु तत्र क्षताः सर्वेषु शरीरे सर्वे शरीरे तत्र क्षताः सन्ति किमर्थम् एतत् सर्वं मुने पृष्टवान् आसीत् पश्यन्तु उत्तरं कः उत्तरं किमस्ति तत् पश्यामः अस्तु धन्यवादः गीतामोगिनी हा अधुना अग्रिमे अम्बिकापतिमहोदयः भवान् पठति वा सर्पः उक्तवान् तथा सर्पः उक्तवान् स्वामिन् भवतः उपदेशकारण कारणतः अहं हिंसा हिंसाचरणं त्यक्तवान् अहिंसा व्रतिनिष्ठः सन् सर्वं ओढ ओढवान् सोढवान् मम स्थितिः शोचनीया जाता अस्ति इति किमस्ति hmm. अत्र वदति वा भवतः वाक्येन वाक्यरूपेण अहं हिंसा च हिंसाचरणं त्यक्तवान् अतः जनाः बा बालकाः क्रीडति तत् न प्रतिकारं कृतवान् कर्तुं न कृतवान् प्रतिकाराचरणं न कृतवान् परन्तु ते मम शरीरे शिराखण्डान् क्षिप्त्वा बहु रोदनं कृतवान् आम् एते सर्वे माम पीडयन्ति स्म इति अधुना मम स्थिति स्तोचनीया पश्यन्तु का स्थिति अधुना तत्र स्वामिन् इति सम्बोधने सः वदति भवान उपदेशं कृतवान् मां बोधितवान् तस्मात् कारणात् अहं हिंसाचरणं त्यक्तवान् हिंसायाः आचरणं हिंसाचरणं त्यक्तवान् हिंसाचरणस्य त्यागं कृतवान् अहिंसाव्रतनिष्ठसन् अत्र सन् इत्युक्ते अहम् अहिंसाव्रतनिष्ठः भूत्वा सर्वं सोढवान् सर्वं सः सः शब्दतः सः धातुतः सोढ इति रूपं हा स सर्वे सर्वेषां तत्र या पीडायाः सहनं कृतवान् सोढवान् इति हा, हा सोढवान् परन्तु तेन किम् अभवत् अधुना मम स्थितिः शोचनीया इति उत्तरं सर्पस्य पश्यन्तु अधुना किम् अभवत् हा धन्यवादः अम्बिका पति महोदय अन्तिम तत्र भारतमहोदय पठति वा तदा मुनिः भगिनि तदा मुनिः उक्तवान् भोः मित्र अहं तु भवन्तम् अन्या अन्यान् माद इति इतावदेव मा एतावदेव इति न उक्तवान् खलु हिंसाजाले आत्मानं अन्येभ्यः Hmm. Hmm. अपि मा ददातु इति सर्पः तस्य वचनात् नूतनां जीवनदृष्टिं प्राप्तवान् तत्र मुनि उक्तवान् मित्र अहं तु भवन्तम् अन्यात् मा दशतु दशतु अन्यान् द्वितीया विभक्ति बहुवचन् हा अन्यान् रामः रामौ रामः रामौ रामौ रामान् तत् अन्यान् इति अन्यान् मा दशतु इति एता, एतावत् एव उक्तवान् मुनिः किम् उक्तवान् मा दशतु दर्शनं त्यजतु विना कारणं कोऽपि आगच्छति वा कोऽपि गच्छति तदा विना कारणं दर्शनं मा करोतु एतावदेव उक्तवान् अग्रिमे किं वदति मुनिः मा करोतु आ, खलु इत्युक्ते पश्यन्तु सर्पस्य तुत्कारम् इत्युक्ते तस्य सामर्थ्यप्रदर्शनार्थमस्ति खलु सर्पः तत् एवं मनुष्यवाण्या तत् अत्र अत्र मा, मां पीडां न ददातु नो चेत् अहं हिंसां करोमि अहं दशनं करोमि एवं सः वक्तुं न शक्नोति परन्तु उत्काररूपेण सः स्वस्य सामर्थ्यविषयकप्रदर्शनं तु करोति एव तत् अहं न उक्तवान् पुत्कारं मा करोतु इति अहं न साधु वदति मुनि वदति अग्रिमे किं वदति हिंसां मा करोतु कारं करोतु मा करोतु इति न उक्तवान् इत्युक्ते भरत् महोदय अत्र डबल् निगेशन् अस्ति खलु पुत्कारं मा करोतु इति न उक्तवान् इत्युक्ते पुत्कारं करोतु हुत्कारमित्युक्ते करो करो स्वस्य सामर्थ्यं पश्यन्तु अहं समर्थः अहिंसायाः अर्थबोधः कः मम पुरतः आगच्छति मां ताडनं करोति तदापि मया प्रतीकारः न करणीयः इति अस्ति वा अहिंसायाः हां स्क्रीन् दृश्यते खलु इति अर्थः न स्वसामर्थ्य स्वस्य सामर्थ्यवान् तु भवतु एव उत्कार स्वस्य सामर्थ्यस्य प्रदर्शनं करोतु परन्तु हिंसाजाले आत्मानं पातयितुम् अनेभ्यः अवसरमपि मा ददातु स्वयं हिंसाचरणं न करोतु परन्तु अन्येषाम् अन्यतः हिंसां भवेत् एतादृशम् आचरणमपि न करणीयं खलु अस्माकं सामर्थ्यविषयकसम्यक् ज्ञानं भवेत् दुर्बलता अहिंसा इत्युक्ते दुर्बलता इति न अहं दुर्बलः अतः अहिंसायाः आचरणं करोति इति नास्ति इति नूतनां दृष्टिः अत सर्पः तस्य वचनात् नूतनां जीवनदृष्टिं प्राप्तवान् नूतना जीवनदृष्टिः का <गा>। <गा>। एतादृशम् आचरणं भवेत् स्वयं एव अन्येषां पीडां न ददातु स्वयं एव हिंसाचरणं न करोतु स्वयं एव अन्येषां हिंसायाः कृते प्रवृत्तं मा करोतु वर्तनेन हिंसायाः प्रवृद्ध प्रवृद्धा हिंसा इति स्थितिः अस्ति वचनेन वा वर्तनेन तत् मा भवेत् परन्तु स्वस्य सामर्थ्यविषयकः जागरूकः वयं सर्वे भवेमः तत्तु आवश्यकम् इति विचार सम्यक् वा भारतमहोदय अधुना जयन्ति भगिनी स्वशब्दे हि सम्पूर्णा कथा इति स्वशब्दै वदतु किमस्तु सारांशरूपेण वदति वा आं बेनि प्रयत्नं कुर् करोमि स्वरूपेण सर्पः तु विषजन्तु एव तस्य स्वभावमस्ति दर्शनं कार्यम् परन्तु मुनीना उपदेशेन सत्सत्तानाम् उपदेशेन सः स्वस्य स्वभावं परिवर्त स्वभावस्य परिवर्तनं कृतवान् सः सर्पः एतद्विषयं न जानन्ति स्वस्य अर्थम् अनर्थं न सहनीयम् इति न जानाति वयं न हिंसा करणीयम् हिंसां न अन्यान् हिंसामपि न सहनीयम् इति ज्ञा ज्ञातवान् विपरीतार्थं स्वीकृतवान् अस्ति सर्पः एतस्य कथायां विषयः एतत् एव आम् न उत्तमम् उत्तमम् उत्तमम् उत्तमम् अस्ति अन्यान् अपि हिंसायाः प्रेरिताः अन्यान् अपि हिंसा हिंसाविषयकप्रेरणां मा ददातु इति, गुँ। गुँ। गुँ। इति अस्ति सामर्थ्यशालिनः सर्वे भवेत् एव सामर्थ्यस्य यथायोग्यं प्रकटीकरणं भवेत् यथायोग्यं प्रकटीकरणं न वृथा प्रकटीकरं वृथा प्रदर्शनं न भवति परन्तु यत्र यत्र आवश्यकता तत्र तत्र सामर्थ्यविषयकः योग्यमार्गेण योग्यप्रकारेण प्रकटीकरणम् आवश्यकम् अस् अस्ति इति विषयः बहु मौलिक हा वदति अहिंसा परमो धर्मः सर्वाणां धर्माणाम् अतीवमहत्त्वपूर्णः अहिंसा Uh, hmm. तस्य uh, uh, uh, वयं न हिंसा करणीयम् अन्यान् हिंसा अपि न सहनीयम् इति अतः ah. hmm. तत्र पुत्कारं मा करोतु इति न उक्तवान् उत्कारं hmm. तु भवेदेव hmm. ah, सर्पस्य कृते अस्माकं hmm. ah, कृते hmm. स्वस्य सामर्थ्यम् hmm. उक्तवती hmm. उत्तमं भगिनि उत्तमं योग्य ah. अन्यान् hmm. अन्यान आगच्छन्तु एकमेकं एकम सर्वे सर्पः स्वभावतः दंशयन्ति hmm. रक्षण रक्षात्मकानि कार्याणि न um, कृतानि mm -hmm. mm -hmm. परे दुःखं न कुर्यात् आं बहु सम्यक् यत्र यत्र इत्युक्ते अनावश्यकानि कर्माणि इतरान् इतरा इतराणां इतरा कृते पीडनं वा ताडनम् इति न करणीयं तत् तत्तु योग्यं सर्वथा अयोग्यमेव यत्र यत्र आवश्यकयुद्धभौमौ अहं गच्छामि तदा अहिंसा आचरणं करोमि तत्तु न योग्यमेव तदा तु अहिंसायुक्त आचरणं भवेत् वधमेव न करणीय इति न परन्तु निरर्थक यत्र यत्र आवश्यकता नास्ति तत्र तत्र अहिंसाविधायककार्याणि न करणीयानि इति सत्यं योग्यं योग्यं महोदय धन्यवादः धन्यवादः मीना भगिनी राधा भगिनी तर, सर्वाणां स्वस्य धर्मं पालनं कर्तुम् आवश्यकः किम् उक्तवती स्वस्य धर्मम् आं स्वस्य धर्मस्य पालनं कर्तुम् आवश्यकः आम् आम् स्वधर्मपालनं तत् बहु सम्यक् बहु सम्यक् अत्र एव गीतायाः किं वदामः तत् इसेन्स् गीतायाः साररूपेण तत्रैव वर्तते स्वधर्मपालनं स्वधर्मपालनम् इत्युक्ते यत् रिलिजियन् इति वयं वदामः क्रिस्टियनिटि वा तत् न मर्त्यम कि मा स्वभा अदुना अहम पाठयामे मम त्र पाठन वनमनम यदि तम तस् रस अस्त मैं पालन सम्यकीय अनकोप वणि त्यापारूपेण तत्को देशरक्षण कौती पालनं स्वधर्मस्य पालनं स्वकर्तव्यस्य पालनं तु करणीयमेव यदा वयं त्यजामः स्वधर्मं तदा किं भवति सर्पसादृशं स्थितिः भवति सर्पसादृशी स्थितिः इति योग्यं बहु सम्यक् अस्तु तदा रमा भगिनी राधाभगिनी वदतु एकमेकं एकम। भारतमहोदय अन्याय करो तु। आ, आम, आम, निंसा न सहनीया अन्यायस्य प्रतीकारं निश्चयेन कुर्वन्तु अन्याय इन्जस्टिस् कदापि सोढुं वयम् न शक्नुमः इत्युक्ते यत्र यत्र अन्यायजनकवर्तनं तदा वयं तस्य प्रतीकारं निश्चयेन कुर्मः इति सत्यं योग्यम् अस्माकं हस्ते अस्ति आं स्वरक्षणम् इति स्वरक्षणम् बहु सम्यक् तत्तु अद्य इत्युक्ते साम्प्रतकाले अपि स्वरक्षणम् इति महत्त्वपूर्णम् अङ्गं योग्यं सम्यक् येन केन मार्गेण सम्यक् परन्तु स्वरक्षणं तु भवेदेव योग्य राधा भगिनी मम hmm. रक्षणार्थम् अहं hmm. प्रतिकरणं करणीयम् hmm. अन्ये जनानां विना न पीडयतु किमपि <parels> मां पीडां करोति <hung> तर्हि अहं मम रक्षणार्थं प्रतिकरणं करणीयम् आं प्रतिकारं करणीयं बहु सम्यक् बहु सम्यक् सम्यक् सम्य उक्तवती योग्यमार्गेण उक्तवती उत्तमं भगिनी धन्यवादः गीताभगिनी <gita> va? भवती वदति वा गीताभगिनी प्रयत्नं करोतु स्वयं संरक्षणं करणीयम् अन्य कोऽपि मम स्वरक्षणं न कर करणीयं शक्नोति चेत् मन अहं प्रयत्नं करोमि किं किं वक्तुम् इच्छति भगिनि अधुना अधुना कोपि मन को मध्ये मध्ये ट्रबल करोति चेत् मम रक्षणं करोमि मम रक्षणं करोमि स्वयं आमा, योग्य योग्य योग्य विचार योग्य विचार अक पशन महात्म बोध पर विपरीतरी स्वीकृत विपरीतरी तर ग्रहण अभवे अस्र्तव्यं संति संति। बोधवाक्यापदेश अस्कं कर्तव्यम कि सर्थ अवगमनम भवे अर्थ अवगमनम अर्थवगमनम्येण अवभव नोचे कि शास्त्रु वचना सी गीता वचना सी परुक अर्थबोध य तदा विपरीतरीत्या तत् न लाभाय इदन्तु तत्र पीडनमेव भवति लाभतु न भवति एव अतः अर्थस्य अवगमनम् अतः एव अस्माकं वर्गगीतासोपानं तेन किं भवति व्याकरणविषयक अंशाः वा तत्र विभक्तिरूपाणि वा सम्भाषणे कथं तत्र रूपं भवति एवं सर्वं वयं जानीमः तेन किं भवति अग्रिमे अपि वा गीतायाः पठनं भवेत् वा श्लोकानां पठनं भवेत् वयं सम्यक् दृष्ट्या अर्थस्य अवगमनं कर्तुं सक्षमाः भवेमः इति एवं खलु योग्यं वा अधुना धन्यवादाः सर्वेषाम् शान्तिमन्त्रेण समापयामः अम्बिकापतिमहोदय वदति वा शान्तिमन्त्रिनी पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्छदे पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यदे ॐ शान्तिशान्तिशान्तिः हरिः ओम् तत्सद् श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः धन्यवाद सर्व्य धन्यवाद धन्यवाद